दम् तु ते बुख्यतमम् प्रवक्ष्याम्यनसूयवे ज्ञानम् विज्ञानसहितम् यज्ञात्वा मोक्ष्यसेषु धन्यं सुसुखं कर्तुमौ स्य परम् तप अप्राप्य माम् मृत्युसंसारव श्यमे tha <laughs> sawa आकाशम् प्रकृति I've oh got my सततम् कीर्तयन्तो मा यतन्तश्च दृढो व्रता मां भद्या विद्य तिर्भर्ता प्रभुः साक्षी निवासरणम् सुहृत् प्रभवः प्रलयः स्थानम् निधानम् बीजमव्ययम् पावम्यहमहम् वर्षम् निगृह्णानि उत्सृजामि च अमृतम् चैव मृत्युश्च सदसच्च am uh a -huh. विशालम् क्षीणे पुण्ये पर्त्य म्यगम् ये प्यज्ञदेवता भक्ताः यजम् ते श्रद्धया तेपि मामेव कौतेय यजन्ति अविधिपूर्वकम् यम् यो मे भक्त्या प्रयच्छति तदहम् भक्त्युपक्तम् अश्नामि प्रयतात्मनः समोहम् सर्वभूतेषु न नप्रियदा ये भजन् श्वान्तिम् निगच्छति पार्थव्यपा येपि स्युः पा असुखम् लोकम् इमं प्राप्य भयस्वमा त्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजमुख्ययोगो नाम नवमोऽध्यायः